अयोध्याकाण्डं स्वर्गं फैव् आयान्दं नागरा दृष्ट्वा मार्गे रामं सजानकीं जानकीं लक्ष्मणेन समं वीक्ष्य ऊचुः सर्वे परस्परं कैकेय्या वरदानादिश्रुत्वा दुःखसमावृताः बतराजा दशरथसत्यसन्धम् प्रियं सुतम् स्त्रीहेदो रत्यजगामि तस्य सत्यवदा कुतः कैकेयीवा कथं दुष्टा रामं सत्यं प्रियंकरं विवासयामास कथं क्रूरकर्मादिमूढधीः हे जनानात्र वस्तव्यं गच्छामोऽद्यैव काननम् यत्र रामः सभार्यश्च सानुजो गन्तुमिच्छति पश्यन्दु जानकीं सर्वे पादचारेण गच्छतीम् पुम्भिः कदाचिद्दृष्ट्वा वा जानकीलोकसुन्दरी सापि पादेन गच्छन्ती संखेश्वनावृता रामोऽपि पादचारेण गजाश्वादिविवर्जितः गच्छति द्रक्ष्यथ विभुं सर्वलोकैकसुन्दरं राक्षसी कैकेयीनाम्नि जादासर्वविनाशिनी रामस्यापि भवेद्दुःखं सीतायाः पादयानदः। बलवान् विधिरेवात्र, पुंप्रयन्तो हि दुर्बलः इति दुःखाकुले वृन्दे साधूनां मुनिपुङ्गवः अब्रवीद्वामदेवोध साधूनां सङ्खमध्यगः मानुषोच रामं वा सीतां वा वच्मि तत्त्वतः एष रमः परो विष्णुरादिनारायणस्मृतः एषा सा जानकीलक्ष्मीर्योगमायेदि विश्रुता असौ शेषस्तमन्वेदि लक्ष्मणाख्यश्च साम्प्रतं एष मायागुणैर्युक्तस्तत्तकारवानिव एष एव रजो युक्तो ब्रह्मा भूद्विश्वभावनः सत्ता विष्टस्तथा विष्णुस्त्रिजगत्प्रतिपालकः एष रुद्रस्तामसोन्दे जगत्प्रलयकारणं एष मत्स्यपुरा भूत्वा भाक्तं वैवस्वतं मनुं नाव्यारोप्य लयस्यान्दे पालयामासराखवः राघवः समुद्रमथने पूर्वं मन्दरे सुतलं गदे आधारयत्स्व पृष्ठेद्रिं कूर्मरूपी रघोत्तमः महिरसतलं यादाप्रलये सुकरो भवद तोलयामास ग्दंष्ट्राग्रे तां क्षोणीं रघुनन्दनः नारसिंहं वभु कृत्वा प्रह्लाद वरदः पुरा त्रैलोक्यकण्टकं रक्षः पाठयामास पुत्रराज्यं हृदं दृष्ट्वा ह्यदित्या याचितः पुरा याज्ञया चाहरत् पुनः दुष्टक्षत्रियभूभारनिवृत्यै भार्गवो भवद सयेव एव जगतां नाथ इदानीं रामदां गदः रावणादीनि रक्षांसि कोडिशो निहनिष्यति मानुषेणैव मरणं तस्य दुष्टं दुरात्मनः राज्ञा दशरथेनापि तपसाराधितो हरिः पुत्रत्वाकाङ्क्षया विष्णोस्तदा पुत्रो भवद्धरिः स एव विष्णुश्रीरामो रावणादिवधायहि गन्धाद्यैव वनं रामो लक्ष्मणेन सहायवान् एषा सीता हरेर्मया राजावा राजा वा कैकेयीवापि नात्र कारणमण्वपि पूर्वेद्युर्नारदः प्राह भूभारहरणाय च रामोऽप्याहस्वयं साक्षाच्वो ग्य हनम अदो राम सदिश्य चिंता त्यजत बाह राम ये निपति मनुजा भुवि तृत्युभनी नीति कदाचन क्या राम से दुखशंगा महात्म राम नाम मुक्तिः स्यात् कलौ नान्येन माया केनचित् मायामानुषरूपेण लोककृत लोककृतभक्तानां भजनार्थाय रावणस्य वधाय च राज्ञश्चाभीष्टसिद्ध्यर्थं मानुषं वपुराश्रितः इत्युक्त्वा विररामाथ वामदेवो महामुनिः श्रुत्वा तेऽपि सर्वे रामम् ज्ञात्वा हरिं विभुं जहुर्हृत्संशयग्रन्थिं राम मेवान्वचिन्तयन् य इदं चिन्तयेन् नित्यं रहस्यं रामसीतयोः तस्य रामे दृढा भक्तेर्भवेद्विज्ञानपूर्विका रहस्यं गोपनीयं वो यूयं वै राघवप्रियाः इत्युक्त्वा प्रययौ विप्रस्तेऽपि पिरामं परं विदुः ततो रामः समाविश्य पितृगेहमवारितः सा नुजसि गत्वा कैकेयीमिदमब्रवीद आगता स्मो वयं मादश्रयस्ते सम्मदं वनं गन्तुं कृद धियशीघ्रमाज्ञापयतु नः पिता इत्युक्ता प्रददौ स्वयं रामाय लक्ष्मणायाथ सितायै पृथक् पृथक रामस् वस्त्रुत्सृज्य वन्यीरा पर्यदादी तथा चक्रे सीधा तन्न अस्ते सीता तजानी हस्ते गृह्वे रामो मुखम्ष्क्षद गृही तच्चीरमशु पर्यवेष्टयद तद् दृष्ट्वा रुरुदुःसर्वे राजधारासमन्तदः वसिष्ठस्तु तदा कर्ण्य रुदितं भर्सयन् रुषा कैकेयीं प्राह दुर्वृत्ते राम एवत्वया त्वया वनवासाय दुष्टेत्वं त्वं सितायै प्रयच्छसि यदि रामं समन्वेदि सीताभक्र्या परिव्रता दिव्याम्बरधरा नित्यं सर्वाभरणभूषिता रमयत्वनिशं रामं वनदुःखनिवारिणी राजा दशरथोऽप्याः सुमन्त्रं रथमानय रथमारुह्य गच्छन्तु वनं वनचरप्रियाह। इत्युक्त्वा राममालोक्य सीतां चैव सलक्ष्मणं दुःखान्निपतितो भूमौ रुरोदाश्रु परिप्लुदः आरुरोह रथं सीता शीघ्रं रामस्य पश्यतः रामः प्रदक्षिणं कृत्वा पितरं रथमारुहदलक्ष्मण खड्गयुगलं धनुस्तुणीयुगं तथा गृहीत्वा रथमारुह्य नोदयामास सारथिं तिष्ठतिष्ट सुमन्त्रेदि राजा दशरथोऽब्रवीत् गच्छ गच्छेदि रामेण नोदितो चोदयद्रथम् रामे दूरं गदे राजा मूर्चिदः प्राप तद्धुवि पौरास्तु बालवृद्धाश्च वृद्धा ब्राह्मणसत्तमाः तिष्ठतिष्ठेदि रामेधिक्रोशन्तु रथमन्वयुः राजा रुदित्वा सुचिरं मां नयन्तु गृहं प्रदि कौसल्याया कौसल्यामीह पिचर का किंचित काल भवत्तर जीवन दुखित से मे अदवोर्धवा चिंराम विना तद गृह प्रवश्य कौसल्या पाता मूर्छत चिरादुवा वदस्तिवान् रामस्तु तमसाधीरं गत्वा तत्रावसत्सुखी जलं प्राश्य निराहारो वृक्षमूले स्वपद्विभुः सीतया सखधर्मात्मा धनुष्पाणिस्तु लक्ष्मणः पालयामास धर्मज्ञमन्त्रेण समन्वितः पौराः सर्वे समागत्यस्तिदास्तस्याविदुरतः शक्ता रामं पुरं नेतुं नो चेद्गच्छामहेवनम् इति निश्चयमाज्ञाय तेषां रामो दिविस्मितः नाहं गच्छामि नगरमेदेवै क्लेशभागिनः भविष्यन्तीति निश्चित्य सुमन्त्रमिदमब्रवीद इदानीमेव गच्छामसुमन्त्र रथमानय इत्याज्ञप्तस्सुमन्त्रोऽपि रथं वाहैरयोजयद आरुह्य रामसीता च लक्ष्मणोऽपि युर्धृतम् अयोध्याभिमुखं गत्वा किञ्चिद्दूरं तदो तेपि तेऽपि राममदृष्ट्वैव प्रादरुद्धाय दुःखिताः रथनेमिगतमार्गं पश्यन्तस्ते पुरं ययुः हृदि रामं सशीतं सुमन्त्रोऽपि रथं शीघ्रं नोदयामाससादरं स्वीतान् जनपदान् पश्यन् रामसीदा समन्वितः गङ्गाधीरं समागच्छृङ्गवेराविदूरधः गङ्गां दृष्ट्वा नमस्कृत्य स्नात्वा सानन्दमानसः शिं निशसादरकोत्तमः तदो गुहो जनैः श्रुत्वा महोत्सवं सखायं स्वामिनं द्रष्टुं हर्षातोर्णं समापतद फलानि मधुपुष्पादि गृहीत्वा भक्तिसंयुतः रामस्याग्रे विनिक्षिप्य दण्डवत् प्राप गुहमुद्घाप्यतं तूर्णं राघवः परिषस्वजे सम्पृष्टकुशलो रामं गुहप्राञ्जलिरब्रवीद धन्योहमद्य मे जन्म नैषादं लोकपावना बभूव परमानन्दस्पृष्ट्वा त्यङ्गं रघुत्तम नैषादराज्यमेदत्ते िङ्गरस्य रघोत्तम त्वदधीनम् वसन्नत्र पालयास्मान् रघुद्वः आगच्छामो नगरं पावनं कुरु मे गृहाणफलमूलानि त्वदर्थं सञ्जितानि मे भगवन् दासस्तेऽहं सुरोत्तम रामस्तमाह सुप्रीदो वचनं शृणु सखे नवेक्ष्यामि गृहं ग्रामं नववर्षाणि पञ्च च दत्तमन्येन नो भुञ्जे फलमूलादि किञ्चन राज्यं तत्ते सर्वं त्वं सखा दिवल्लभः वडक्षीरं समानाय्य जडा मुकुटमादराद बबंधलनाध सहि रघुनंदन जलमात्रीतया सह राघव आसपर्ना शयनमेन्हीं उवास त्र नगर प्राद्रे यहा पुरा सुष्वाप तत्र वैदेह्या पर्यङ्क इव संस्कृते ततो विदूरे परिगृह्य चापं सबाणतोणीरधनुःसलक्ष्मणः ररक्षरामं परिदो विपश्यन् गुहेन सार्थं सशरासनेन इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे पंचमसर्गः सर्गः ॐ